अथ विंशः सर्गः ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ददर्श राक्षसोऽभ्येत्यशार्दूलो नाम वीर्यवान् चारो राक्षसराजस्य रावणस्य दुरात्मनः ताम् दृष्ट्वा सर्वतो व्यग्राम् प्रतिगम्य स राक्षसः आविष्यलङ्काम् वेगेन राजानमिदमब्रवीत् एष वैवा नक्षक्षक्षक्ष लंकां समभिवर्तते अगा प्रमेयश्च द्वितीय इव सागर पुत्रो दशरथ सेमौ भ्रातरौरामण उत्तम सीतायाद सागर आसाद महाद्युते बल चाकाशोजन तत्त्वभूतम् महाराज क्षिप्रम् वेदितुमर्हसि तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् शार्दूलस्य वच श्रुत्वा रावणो राक्षसेश्वरः उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः शुकम् साधु सुग्रीवं ब्रोहि गत्वा सु राजानम् वचनान् मम यथा सन्देशमक्लीबंश्लक्ष्मया परया गिरा त्वम् वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजः सुतश्च न कश्चनार्थस्तव नास्त्यनर्थस्तथापि मे भ्रातृसमोहरीश अहम् यद्यह रम्भार्याम् राजपुत्रस्य धीमतः किम् तत्र तव सुग्रीवतिष्यम् धाम् प्रति गम्यता न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथञ्चन देवैरपि स गन्धर्वैः पुनर्नरवानरैः सतदाराक्षसेन्द्रेण सन्दिष्टो रजनीचरः शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् स गत्वा दूरमध्वानमुपर्युपरि संस्थितो ह्यम्बरे वाक्यम् सुग्रीवमिदमब्रवीत् सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना तत्प्रापयन्तम् वचनं तूर्णमाप्लुत्यवानराः प्रापद्यन्त तदा क्षिप्रम् रोप्तुम् हन्तुम् च मुष्टिभिः सर्वैः प्लवङ्गैः प्रसभम् निगृहीतो निशाचरः गगनाद्भूतले वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् न दूतान् घ्रन्तिकाकुत्स्थवार्यन्ताम् साधु वानराः यस्तु हि त्वा मतम् भर्तुः स्वमतम् सम्प्रधारयेत् अनुक्तवादी दूतः तु परिदेवितम् उवाच मावधिष्ठेति घ्नतः स च भये अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत सुग्रीवसत्त्वसम्पन्न महाबल पराक्रम किम् मया वक्तव्यो रावणो लोक रावणः स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमाना वृषभो महाबलः उवाच वाक्यम् रजनीचरस्य चारम् सुकम् शुद्धमदीन सत्त्वः न मेसि मित्रम् न तथा नुकम् प्यो न चोपकर्तासि न मे प्रियोऽसि अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्हवध्यः निहम्यहम् त्वाम् स सुतम् स बन्धुम् सज्ञातिवर्गम् रजनीचरेश लङ्काम् च सर्वाम् महता बलेन सर्वैः करिष्यामि समेत्यभस्म न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढगुप्तः अन्तर्हितः सूर्यपथम् तथैव पातालमनुप्रविष्टः गिरीशपादाम्बुजसङ्गतो वाहतोऽसि रामेण सहानुजस्त्वम् तस्य ते त्रिषु लोकेषु न पिशाचम् रम् नानुपश्यामि न नचासुरं धर्वम् जरावृद्धं चासुरम् अवधी स्वम् जरावृद्धम् गृध्रराजम् जटायुषम् सकाशे लक्ष्मणस्य च हृता सीता विशालाक्षीयान् त्वम् गृह्य न बुध्यसे महाबलम् महात्मानम् दुराधर्षम् सुरैरपि न बुध्यसे यस्ते प्राणान् हरिष्यति ततो हरिसत्तमः नायम् दूतो महाराजचारकः प्रतिभाति मे तुलितम् हि बलम् सर्वमनेन तव तिष्ठत गृह्यताम् मागमल्लङ्कामेतद्धिमरोचते ततो राज्ञा समादिष्टाः समुत्पत्यबलीमुखाः जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् शुकस्तु वानरैश्चण्डैस्तत्रतैः सम्प्रपीडितः याचुक्रोशमहात्मानम् रामम् दशरथात्मजम् लुप्येते मे बलात् पक्षो भिद्येते तथाक्षिणी याम् च रात्रिम् जाये रात्रिम् चयामहम् एतस्मिन्नन्तरे काले यन्मया ह्यशुभम् कृतम् सर्वम् तदुपपद्येथ जह्यान् चेद्यदि जीवितम् श्रुत्वा तत्परिदेवितम् वानरानब्रवीद्रामो मुच्यताम् दूत आगतः इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः